ओ अखजाननबद्मार्कं गजाननमकर्निशम् अनेकदन्तं भक्तानां एकदन्तमुपास्महे महागणपतये नमः गुरवे सर्वलोकानां विषजे पवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्ताभ्याम् नमः ज्ञानानन्तमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानाम् अयग्रीवमुपास्महे श्री अयग्रीवमूर्तये नमः सरस्वती नमस्तोभ्यं वरते कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा महासरस्वत्यै नमः उमा कोमलकस्ताब्ज सम्भावितललाटकं हिरण्यकुण्ठलं वन्दे कुमारं पुष्करश्रजं विठिवेल्मुर्कन्के अरकरोकरा कोमलं कोजयं वेणुं श्यामलोयं कुमारक वेदवेद्यं परं ब्रह्म भासतां पुरतो मम स्वयं कले बनान्ते कुसुमितसमये सैकते चन्द्रिकायां त्रैलोक्याकर्षणा सुरवरगणिका मोघनापाङ्गमूर्तिं सेव्यं श्रृङ्कारबाभैके नवरसपरितैके कोपकन्या सघ्रैके वल्ते को रासकेळि रथमतिसुपतो वश्य गोपालकृष्णो अनिलक्ष्णकेशो ज्वलित मगर सत् कुण्ठलो मन्त्र का सस्यन्त कौस्तुभे परिगत वनमलोर विराबो श्रीभत्सङ्गोभां मृदुलस दोदरो काञ्चनचय चल चारु स्निग्धोरुमम्बोरुकं ललितपतं भावये कं भवतो श्रीकृष्णगोविन्दघरे मुरारे श्रीनाथ नारायण वासुदेव श्रीकृष्णगोविन्दघरे मुरारे श्रीनाथ नारायण वासुदेव श्रीकृष्णगोविन्दघरेन्द्रे Murare Shrinatha Narayana Vasudeva Sarvatra Govinda Nama Sangithanam Govinda Govinda Narayana Kavaccham सच्चिदानन्दय वेशोद्भक्त्यादिगे तवे ताभत्रय विनाशाय श्रीकृष्णाय वयं नमः सच्चिदानन्दरोपाय विश्ोद्भक्त्यादिगे तवे ताभत्रय विनाशाय श्रीकृष्णाय वयं नमः सच्चिदानन्दरोपाय भेशोद्भ त्यातिहेतवे तवे श्रीकृष्णाय भयं नोमक राजोवाच यया गुप्तः सहस्राक्ष स वा प्रीतन्निव विनित्या त्रिलोक्या बभोजय श्रियो भगवंस्तममाख्या हे वन्मनारायणात्मको यथा तथा येन शत्रून् येन गुप्तो जयमृते श्रीसुख उवाच वृदः पुरोगिदस्पष्टकमघेत्रायानुभृच्छते नारायणाख्यं वन्मा का तदिकै गमनाशृणो विश्वरोपुवाच तोदाङ्गपाणिराचम्य स भवेन्द्रमुदङ्मुखक पृथस्वाङ्करन्यासक मन्त्राभ्याम्बाक्यदं चोचिहे नारायणमयं वर्म सन्नहेभय आगते पादयोर्जाननोरोर्वो उदरे कृत्यतोरसे मुखे चिरस्यानपुर्यात् ओङ्कारदिनिसेत् ॐ नमो नारायणयते विपर्यय माता पिबा करण्यासं तद् कुर्यात् द्वादशाक्षरवेद्यया प्रणवाति यकारान्तम् अङ्गुल्यङ्गुष्ठपर्मसो न्यसे धृतय विकारमनमोर्दने षकारं तु नकारं चिकया बेकारं नेत्रयोर्यत् नकारं सर्वसन्देशो मकारमस्त्रमुद्दिश्य मन्त्रमोर्तिन् भवेत् मुदक सविसर्गं पठन्तं तत् सर्व दीक्षु विनिर्दिशेत् ॐ वैष्णवे न आत्मानं परमं जायेत् ज्ञेयं षट्शक्ति विन्युता विज्ञाते जस्तफो मूर्तिं इमं मन्त्रमुदा करेत् ॐ करे मे मम सद्वरक्षां न्यस्ताङ्ग्रि पद्मपदचेन्द्रभृष्टें दरारि चन्मासि कथुचापपाशां तदा नोष्ठगुणोष्ठाकु गुणां जलेषु मां रक्षमस्य मूर्तिः यातो गणेभ्यो वरुणस्य पाशात् सलेषु माया बडुवामनो व्यात् क्रमके वदवेश्वरूपक दुर्गेष्पटं व्याजिमुखात्षुप्रभुको पायान्दसिंहो सुरयोतपरिखे विमुञ्च दो यस्य मकाटकासं दिशो विने दुण्यपदं च दर्भाख रक्षत्वसोमात्मनि यज्ञकल्पक सदंष्टयोनि दधरो रामो त्रिकोटेष्वदभिप्रवासे सलक्ष्मणो व्याज् भरधाक्रजोऽस्मान् मामोऽक्रधन्मात किलात् प्रमादात् नारायण पादो नरश्चकासात् दत्तस्वयो का तदयोकनाथ कायात् गुणेशकभिलकर्मबन्तात् सनत्कुमार कामदेवात् हयशीर्ष मां पदि देवकेळनात् देवर्षिवर्ज्यं पुरुषार्चनान्तरात् कौर्मो हरे मां निरया दशेषात् दल्वन्तरे भगवान् पात्वज्ञात् द्वल्त्वाद्भयात्र शभो यज्ञश्च लोकात् अव ञ्चनन्दे बलो गणात् क्रोधवशात हेत्रयभायनो भगवान् प्रभोतात् मुद्धस्तपाकण्ठगणात् प्रमादात् कल्के कले कालमलात् प्रपात दन्मावना योर्प्रतापतारक मां केशवो गदया प्रादरं यादे गोविन्द आसङ्ग म मातवेणुको नारायणप्राणवोदात्तशक्तिः मध्यतिने विष्णुररिकृपाणिखें देवो पराग्नें मधुखो क्रदवां सायं त्रिधामा वध माधवो मां दोषे कृषिकेश उदात्तरात्रे निषीदये को वध पद्मनाभं श्रीवत्सता मां पररात्रये शखं प्रत्योषयेषो सिधरो धनोर्धनक दामोदरो व्यदनुसख्यं प्रपादे विश्वेश्वरो भगवान् कालमूर्तिः चक्रं युकान्तानलदिक्मने मे ब्रमत्समन्दात् भगवत्प्रयोक्तं तन्द्यरिसैन्यमाशो गक्षं यथा बाधसकोकोदाचकं गरे च निपर्श anavesh polinge nek pandinek pandya jidapriyase कूष्माण्डवैनायग यक्ष रक्षो बोधप्रकां चूर्णयं चूर्णयान् त्वं यादुतारं प्रमदप्रेदमात्र पिशासवे ग्रगकोर दृष्टेन् तरेन्द्रविद्रा वय कृष्णपूरितक मे त्वं देग्मधारा शिवराणि सैन्यमेष प्रयुङ्क्तो मम चिन्त्य चक्षुं श्रीचर्मं चदचन्द्रचोदय निशामकोणां हरपापसक्षुषां यन्नोपयं गृहेभ्योऽभूत् केदप्यो नृभ्य एव च सरीशभेभ्यो दंशेभ्यग भूते व्यों गोप्यये भां सर्वान् केतानि बकवल्लं नमरोपास्रकेतन प्रयान्तु संश्रयं सद्य येन श्रेयं गरुडो भगवान् सोऽस्रस्तो भच्छन्दोमय प्रभुक रक्षत्वचे शकृच्छेप्यक विष्वक्सेन स्वनामभिखे सर्वापत्यो हरेर्नामरोपयानायो दानिनक बुद्धि इन्द्रियमनप्राणान् पाथोपाषदभोषणका यदा कि भगवान् एव वस्तु द सद सच्चयते सत्येनान्येन न सर्वे च मोभद्रभोका यदेकात्मानुभावानां विकल्परहितस्वयं भूषणायुधलिङ्काज्ञाः दत्ते शक्ते स्वमाययां तेनैव सर्वज्ञो भगवान् करिहे पदो सर्वैस्वरूपै सदा सर्वत्र सर्वग विधुधिमद समन्तात् अधर्बे भगवान् नारसिंह प्रकापयल् लोकभयं स्वनेन स्वधेजसग्रस्त समस्त ते ज ख्यातं वन्मदायणात्मका विजेशस्यज्ञसायेन तं चितो सुरयोतपान् एतद्धारयमानस्तु यं यो पश्चि चक्षुषां संस्पृशे सद्यः सात्त्वसात्सवि मोक्षते तस्य मेद्यां धारय यतो भवेत् राजतस्य उग्रकादिप्यः व्याघ्रादिप्यश्च कश्चित् इमां विद्यां पुरा कश्चित् कौशिकोद्धारयन्ति जघ योगतारणया स्वाङ्गं जघो समरुतने तस्योपरि गता, गन्धम् वपदिरे गतां ययोचित्र रतस्त्रैर्भिः वृधो यत्रत्यजक्षयख गगणान्यबदः सद्यः स्वाभिमानोक्य वाक्षिरोका सबाल किल्यवचनात् अस्ति ज्ञाताय विस्मितख प्राच प्राची सरस्वज्ञाम् स्नात्वा तामस्वमल्बकात् श्रीशुक उवाच ययि तं शृणुयात्काले योधारयदे चात्रोदक तं नमस्य ते भोक्तानि मोच्यते सर्वतोपयात् एतां विद्याम् अधिकदकं विश्वरोपाचदक्रदुको त्रैलोक्यलक्ष्मीम्बभुजे विनेजत्यमृते सुराङ्गे न भोग्यवस्तूनि न नाकपृष्टं ना न ना सिद्धिलापं परमेश काङ्क्षे प्रसन्नमन्तस्मिदसुतरं ते मुखाम्बुजं दर्शय सन्ततं मे मोक्षाब्धिसार नरभाकवदाख्यमत् नोको नारायणीयनवनिदमको गृहेत्मा मायामयोकपरितप्तजनाय योतात् तस्मै गंगा, गीता च गायत्रवि चतुलसिका गोपिका चन्दनं ते शालक्रमापि पूजा परपुरुषं तदेकादशी नामवर्णाका एता नष्टाप्ययत्नान्य कलिसमये त्वत्प्रसादप्रभृत्या चे ब्रह्मोक्ते प्रदानेत्यभिदो रोषयकं तेषु मां सज्जयेता का सर्वत्र गोविन्दनामसङ्कीर्तनं गोविंदा गोविंदा इनि नारायणं मोदल् दशकं सान्त्रानन्दावबोधात् मगमनुपमितं कालदेशावदेभ्या निर्मोक्तं नित्यमुक्तं निगमचदसघर्षेण निर्भाष्यमानम् अस्पष्टं दृष्टमात्रे पुनरुपुरुषार्तात्मकं ब्रह्म तत्मं तत्मादिसाक्षात् गुरुपवनपुरे हन्दवाक्यं जनादा एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन् वाचा दिया वा भजति पदजनक्रोत्रदेव स्फुटेयं ये ते तावद्मयं तो स्थिरतरमनसा विश्वपीठापहत्ये निशेषात्मान मेनो गुरुपवनपुरा दिशमेवाश्रयामक सत्वं यद्यत्पराभ्याम् अबरिकलनतो निर्मलं तेन 바한테 보대 보댄 드야 이스테 바볼리디 모구샤가 수야테 냑야사 바쿄 따스바차트노테 야다차키타 파라소가 쳇갓바넷 보사루뽀 तस्मि दया रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते निष्कम्बे नित्यपूर्णे निरवधि परमानन्दपीयोषरूपे निर्लीनान् एकमुक्ता बले शुभगदमे निर्मलं ब्रह्मसिन्दो कल्लो लो लो सतुल्य कलु विमलतर सत्त्वमा कोस्ततात्मा कस्मा निर्व्यापारोपे निष्कारणमज भजसे यत्रियामिक्षणाज्ञां तेनैव तैदिलीना ते प्रकृतिरसदि कल्पापे कल्पादिकाले तस्या शंशुद्धमं शां कमपि तमतिरोदायकं सत्वं धृत्वा ततासे स्वमगिम विपवाकुण्ठवैकुण्ठरूपे प्रत्यग्रधाराधरं ललितकला यावण्यं केलिकारो लावण्यस्यैकसारो सुकृतिजनदृशां पूर्णपुण्यावतार लक्ष्मीनिशङ्कलीला निलयनमृतस्य तसन्तोकमन्त सिञ्च सञ्चिन्तकानां वबुरनुकलये मारुतगादनात् कष्टा ते इत्येवं पूर्वमालोचितमजितमया नैव मद्यापि जाने नो सेञ्जे वा कथं वा मधुरतरमितं त्वमुच्चित्रसाद्रो नेत्रैः सौस्रैश्च पीत्वा परमरससुदाम्बोधि पो रे रमेरन् नम्राणां ददमपि पुरस्तैरनप्यर्तितानपि अर्थान् कामानजस्रां वितरते परमानन्दसान्त्रां गीं च इत्थं निःशेषलभ्यो निरवधिकपलक पारिजातोकरे त्वं श्रोत्रं तं चक्रवाटे द्रिममभिलषते व्यर्थमर्तिं प्रजोयौ कारुण्यां काममन्यं तदधि खलु परे स्वात्मदस्त्वं विशेषात् ऐश्वर्यादिशतेन्ये ये जगदि परजने स्वात्मनोऽपि शरस्त्वम् यो चेरारमन्ते प्रतिपद मधुरे चेतनास्मेदमात्या त्वं चात्मा रामये भेद्यतुल गुणगणाधारशौर्य नमस्ते ऐश्वर्यं शङ्कराधीश्वर विनियमनं विश्वते विश्वतेजोकराणां ते जलसंहारिभिन्यो विमलमभियशो भी निस्पृहेश्चो भगेतो संका श्री अखिलविदसे न क्वापि ते सङ्गवार्ता तत्त्वा कारवासिण मुरकर भगवच्छप्तमुख्याश्रयोऽसि सर्वत्र गोविन्द नाम गोविंदा गोविन्द रण्डं दशकं सूर्यस्पतिके रेठ मूर्त दिलकं प्रोत्पासिपालान्दरो कारुण्याकुलनेत्र मात्रकसितोल्लासा सुनासापुठो कण्डो जकरा पण्ठलयुका कण्डो ज्वलङ्को सुपो तत्रोपं वनमाल्यकार पटल श्रीवत्सदे प्रंभजे केयोराङ्कद कङ्कणोत्तम मकारत्नाङ्गुलीयाङ्गित श्रीमद्भागोचतुष्टसङ्कत गता शङ्कारि पङ्केरुकाञ्ची काञ्चन काञ्चि लाञ्चितलसल् पीताम्बरालम्बिने आलम्बे विमलाम्बोजत्युधिपतां मोर्तिं दवा चिदौ यत्रैलोक्यमकीयसोऽपि मकितो संमोकनं मोकनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधौर्यदौर्यादभि सौन्दर्योत्तरतोऽपि सुन्दरतरो तत्रोपमाचर्यतोपि आश्चर्यं भुवनेन कस्य कुदुकं पुष्णादि विवो दत्तात्रिं मधुरात्मकं तव वपु सम्प्राप्य सम्पन्मये स देवे परमो सुखाचिरधुरं नास्ते स्वभक्तेष्वपि ते नास्यापदकष्टमच्छुदविभो त्वत्रोपमानोज्ञक प्रेमस्थैर्यमयात् चापलबलात् चापल्य वार्तोदभूत् लक्ष्मीस्तावक रामणीयक कृतैवेयं परेष्वस्तिरेति अस्मिन् अन्यदभिं प्रमाणमधुना वक्षामि लक्ष्मीपते ए त्वज्ञान गुणानकेतनरसा सत्ता भक्ता जनाका तेष्मेषा वसदि स्थिरै बदयित् प्रस्तवदत्तरा एवं बोधमनोज्ञता न वसुता निशन्दसतोकनो त्वत्रोपं परचेत्रसायनमयं चेतो करं शृण्वतां सत्यप्रेरयते मदिं मदयते रोमाञ्चयत्यङ्कको व्यासिञ्चत्यभि चेदपार्ष्पविसरैः आनन्दमोक्षोद्भवैके एवं बोधदया हे योगस्य योगत्मयात् कर्मज्ञानमया पुरुषोत्तमधरो योगीश्वरे सौन्दर्यैक रसात्मके त्वयि कलो प्रेमप्रकर्षात्मिका भक्तिर्निशमेव मे स्वपुरुषैके लभ्या रमा वल्लभ निष्कामं नियतस्वधर्मचरणं यत्तन्मयोगामिदं यदो यदोपनिषद ज्ञानो बलव्य पुनः तत्त्वं व्यक्तदया सुदुःखमतरं चित्तस्य तस्मात्मि भो त्वत्प्रेमात्मक भक्तिरे वसदतं स्वीयसी श्रेयसी अज्ञायासकराण्ये कर्मपटलान् बोदे भक्तिपदे तवाप्युचिदता आयान्ति किं तवता क्लिष्ट्वा तर्कपते परं तव वपु ब्रह्माख्यमन्ये पुनक सेदात्रत्वमृते विच जबोबिके सिद्यन्ते जन्मान्तरेके भक्तिस्त्व कतारसंभृतजरे निर्मज्जनेन स्वयं सिध्यन्ते विमलप्रबोधपदमे अक्ले च दस्तं सद्य सेद्यकरे जयत्ययि विभो सैवस्तु त्वल्पद प्रेम प्रौढिरसत्रदादृततरं पादालयातीश्वर सर्वत्र गोविन्द नाम सङ्कीर्तनं गोविन्दोवि गो <laughs> मूनां दशकं पठन्तो नामाने प्रमदपरसिंहो निबदिताका स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाका चरन्तो ये भक्ताका त्वयि खलु रमन्ते परममून् अहं धन्यान् कद क्निष्टं कष्टं तव चरणसेवा रसभरेबे अनासक्तं चित्तं भवते पदविष्णो कुरुदया भवत्पादाम्बोज स्मरणरसिको नामनिबान् अहं गायं गायौ वचन विभस्यामि विजने कृपाते जात चेत् किमिव लभ्यम कि लव्यं तनुप्रतां मदीयक्लेशो गः प्रशमनदशानामकीयते न के के अनिशमय शोक विरयिता का भवद्भक्त मुक्ता का सुगगदिमसक्त मिदत दे मोने प्रौढारो डाकां जगदि नारदमुका शरणे च स्वरो सदद परिनिर्मात परचित् प्रसर सदानदात्त्व प्रसरपरिमग्ना किमपरो भवद्भक्ति स्मेताभवत् मम सैव प्रशमयेत् अशेषक्लेशोकौ न खलु कृदि सन्देकगणिका न चेत्योऽसत्योक्ति किं तव च वचनं नैकमवचो भवेन् त्या रत्या पुरुषवचनप्रायं किलो भवद्भक्ते स्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमभ्यारोप चेत् अखिलपरितापप्रशमनीय पुनश्चान्ते स्वान्ते विमलपरिबोधो दयमिळन् महानन्दात्मैतो दिशदि किमतः प्रार्थमपरो मिदोयक्लेशान्मे कुरुचरणयुग्मं धृतरसं भवक्षेत्रप्राप्तौ करमभि च ते पूजनविदो भवन् मोट्यालोके नयनम् पादते पादतुलसी परिग्राणे कृणो श्रवणमभिते चारु चरिते प्रबोतादिं याते प्रसभचलिते मामककृते त्वदीयं चत्रोपो परमरसचेत्रोपमुदियात् उदञ्चत्रो माञ्चो कलिदोखर्ष sha sunivako yad avismaraya sa दुर्पशमपीड परिभवान् मरुत्ते खोदेश त्वयि कलपराञ्चोऽपि सुखिनकं भव स्नेहे सोको गो सुभगपरितप्ये च किमितो अकेत्यस्ते मा भूत् भरदकदभारं प्रशमयन् भवद्भक्तो तं सो ज इति कुरु मां कंसदमनः किमुक्ते भूयोऽपि के तव कि करुणा यावदुदयात् अहं दावदेव प्रयिदविवेतार्थ दा प्रलपित पुरक्लृप्ते पोते वरद तवनिष्यामि दिवसान् यदा शक्तिं व्यक्तौ न दि नोतिनिषेप विरचयान् सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द दशकं कल्यता मम कुरुष्व भवदुपासनं जया स्पष्टमष्टविदयोगचन्ययां पृष्ठया सु पापवादिनियमैश्च पापिता गा कुर्म केन्द्रममे सुकासना पङ्कजात्यमभिपवत्परा गा तारमतरनो चिन्त्यसन्ततां प्राणवायमभिय निर्मला गा इन्द्रियाणि विषया ददाभकृत्यास्मके भवदपासनोन्मुकां कां हस्फुटे बभुषिदे प्रयत्नतो धारे मध्य मोगो मोगो तेन भक्तिरंकरे चिस्व अश्रमं मनसि चिन्तया मे ज्ञानयोशयो ज्ञायतां सकल मोर्ते शे उष मधो रदा क्रदात्मना सात्र मोदर तत्समा स्वदन रूपिणीं स्थितिं त्वत्समाधिमये विश्वनायक अश्रता च धारणाधिक एतमभ्यसननिर्मरो लसते त्वत्परात्मसुगकल्पेदोत्सवा मुक्तभक्तकुलमौलितां संचरे मा सुखनारदाधिमतं त्वत्समाधिविजये तु पुनक मक्षुमोक्षरसिकक्रमेणवां योगवश्यमनिलं षडाशयै उन्नयत्यजसो शं न लिङ्क दे गमभिमोर्तदक सर्तमे वकरणे निरीयते अग्निवासर बलच्च पक्षैके उत्तरायण जोषा च प्रापितो रविपदं भवत्परो मोधवान्द्रिवपदान्तमीयते हस्थितोदमकरालये यतां चेशवक्त्रदगनोष्मनाद्यते ईयते भवदोपाश्रयस्ततां तत्र वा तव पदे तव वसूण प्राकृतप्रलययेति मुक्ततां स्वेच्छया कलपुरापि मुच्यते संविभिद्य जगतटमोजसा तस्य चक्षितिपयो मकोनिल यो मगत् प्रकृतिसप्तकावृतीके तत्तदात्मगदयाविसंके यादिते पदमनावृतं विपो अर्चिरादिगदि मेत्रसं व्रजाले विच्छुदिं न भजते जगत्पते सच्चेदात्मगभवद्गुणोदयालम् उच्छरन्तमनिलेशपायि माम् सर्वत्र गोविन्द नाम संयतमं गोविन्द गोविन्द पञ्चं दशकम् व्यक्ता व्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृद प्रक्षये mayo yam guna samya rah dadameh rado traya dadayam layo yam ñom ratnyuscha tadam radam cha samamute nan ko narotristhidigem तत्रैकस्त्वमशिष्यतां किल परानन्दप्रकाशात्मना कालकल्मगुणाश्च जीवनि बकौखां विस्वं च कौर्यं विभो चिल्लीलारति तेषां नैव वदय सत्त्वमयि भोः शक्त्यात्मना तिष्ठताम् नो चेत् किं गगनप्रसो नसदृशां भूयो भवे सम्भवग एवं च त्रिपरार्तकालविकथावेक्षां सस्रोक्षात्मिकां विप्राणे तये संक्षुपे त्रिभुवने भावाय मायाश्रयो माया तत्कलो कालशक्तिरखिला दृष्टं स्वभावोऽपि च प्रादा विकास्य विदधो तस्यां सगाय माया मायासन्निगीतो प्रविष्टवपुषां साक्षेति गीतो भवान् वेदैस्तां प्रतिबिम्बतो बिबि शिवान् जीवोऽपि नैव परकः कालादिप्रतिभोतिदात भवता संचोतिदाच स्वयं माया सा खलो बुद्धितत्त्वमसृजते योऽसौ महानोच्यते तत्र सौ त्रिगोणात्मकोऽपि च मकान् सत्त्वप्रदानस्वयं जीवेस्मिन् खलु उपमगमित्युद्बोधनेष्पोदक चक्रेस्मिन् सविकल्पबोधकमकं माँग तत्त्वान् महान् कल्पसं सम्पोष्टं त्रिगुणैस्तमोद्य बकुलं विष्णो भवत्प्रेरणात् शोकं च त्रिकोणक्रमात् त्रिवेदताम् आसत्यवैकारिको बोयस्ते बोयस्तै ये दे भवन आज्ञेन सत्त्वात्मना देवान् द्रियमानिनो क्रद दिशा वातार्कपाचस्विनो महेन्द्राचोदमित्रकान् विदुविते श्रीरुद्रशारीरकान् भोमल् मानसभोज्ञकान् कृति मिलच्चित्ताख्यवृत्तवृतौ तच्चान्तःकरणं विभो तव बलात् स त्वां च एव सृजन् जदस्ते जसदो दशेन्द्रियगणक तत्तामसां चात्पुनक तन्मात्रं नभसो मरुन् पुरपते शब्दो जने तद्बलात् शब्दात्यो मां तदत्स स्पर्शं ततो मारुतं तस्मात्रोपमतो महोदचरसं तोयं च मह्य एवं माधवं पूर्वपूर्वकलनात् आध्यात्मन्मान्विता बोधग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात्त्येते बोधकणास्तृयगणाका देवाश्च जाता प्रदज्ञें नो चे कुल्भुवनाण्डनिन्मेदमेदो देवै रमे बेस्तदा त्वं नानावेदशोक्ते नोदगुणक्यमोन्या वेशण् चेष्टाशक्ति मोदेन्यतानि घटयन् ैरण्यमण्डं व्यताका अण्डं तत्कलो पूर्वश्रष्टसलिले दिष्ट सघर्षं समाका निर्भतल् न कृदाच जगत्रूपा विराटक्मयो साकर्षैङ्करपादमूर्तनिबैके निःशेषजीवात्मको निर्भतो से मरुत्पुराधिप स मां त्रायस्व सर्व मया ते सर्वत्र गोविन्दनामसंकीर्तनं गोविंदा, गोविंदा, <coughs>